hold him मुच्यातिक्षं गृह्णे याद्यज्ञं यच्छन्त्याद्य नागता यातिक्षं क्रियते तादृगेव तद्विमुक्तोऽन्यो लड्वान् भवत्यभिमुक्तोऽन्योथातिक्षं गृह्णाति यज्ञस्य सन्तत्यै पत्न्यं वारभत् पत्नी वायु न पत्नी यज्ञस्य करोतिमिसुनन्द तथो पत्न्यैष यज्ञस्याहं च्छेत्ति यावद्भिर्वे राजानुचरैरागच्छति सर्वेभ्यो वैतेभ्यातिथ्यं नियते छन्दागं सि खलु मे सोमस्य राज्ञोऽनुचराण्यज्ञेरातिथ्यम सि विष्णवे त्वेत्याह गायत्रियादेवैतेन करोति सोमस्यातिथ्यमसि विष्णवे एवैते न करो जज्ञ त्वा राण्णे विष्णवे त्वेत्याः दृष्टुभयवेत न करो दिष्येनायत्वा सोमभृते विष्णवे त्वेत्याह गायत्र्या एवेदनगरोधिपञ्च कृत्वा गृह्णाति पञ्चाः क्षरावं याङ्को यज्ञो उभजत आदिथ्यस्य पुरस्ताच्चोपरिष्टाच्च न कपालः पुरोडाशो भव इते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संविता स्त्रिवद्वै प्राणस्त्रिमृतमेव प्राणमभिपूर्वै यज्ञस्य शीर्षं दधाति प्रजापतेर्वा देतानि पक्ष्माणि यदस्वबालायि क्षवि तिगश्चि यदास्वबालः प्रस्तरो भवत्ये क्षवि तिरश्चे प्रजापते चक्षुःसंभरति देवामी या आहुतिर असुरा निष्कामपादन्ते देवाः कार्ष्मर्यमवश्यन् कर्मण्यो वै कर्म गुर्वीतेष्मर्यमयान् परिधेन गुर्वतैरुैते रक्षादिश्यवाक्षलयकार्ष्मलियमयाः परिथयो भवन्ति रक्षसामवहत्यै सज्ञस्परिशयति रक्षसामनन् भवसा राजपुरस्तात् परिदधात्यादित्योह्यो ्रक्षागस्य वहन्त्ये समिधा वादधात्युपरिष्टादेव रक्षाजुषाण्यां मिथुनत्वा यद्वेप्रतिष्ठित्ये ब्रह्मवादिमा वदन्त्यग्निस्तवादेतौ सोमस्तकथा सोमायातिथ्यं क्रियते नाग्जिति यदग्नावग्निं मथित्वा प्रहरतिज नैवाग्न आतिथ्यं क्रिय ल्वाहुरज्ञः सर्वा देवता इति यद्धविरासाद्याग्निम् मन्थति हव्या दैवासन्नाय सर्वा देवता जनयति देवाः सुराः संयत्ता आसन्ते देवामितो विप्रिया आसन्ते न्द्रस्मये ज्येष्ठ्याया तिष्ठमाः पञ्चधाव्यक्रामन्नग्निर्वसुधस्वरुद्रेन्द्रमरुद्भ्यर्वरुण आदित्यै गृहस्व जगस्वैरदेवैस्तै मण्ठन्तासु देव्यो वादं भातुभ्यो रद्यामोजो विप्रिधा स्मो जान इमाप्रियास्तमहस्तास्तमवद्यामहेताभ्यस्व निर्वृच्छाद्यो नः प्रसमो ोऽन्योऽहं यस्मै दृह्यादिति तस्माद्यस्व तानो न तृणां रथमादृह्यति सर्तिमार्च्छति यत्तानो नगुं समपद्यति भ्रातृविजाभिभूति भवत्यात्मना परास्य पञ्चकृत्वा पद्यति पञ्चसाहिते तत्समवाद्यन्ताथो पञ्चाहाक्षराहं दिः पाल्तो यज्ञो यज्ञमेवापन्त त्याह प्राणो वा आपतिः प्राणमेव प्रेणाति परिपतग इत्याह मनो वै एव प्रेणाति तनो न प्र इत्याह तनुगोहि येतास्समवाद्यन्तशाक्मरायत्याहसत्यैः देताः समवाद्यन्तशक्ष्मन्नो ज्यष्ठायत्याहौ ज्येष्ठगुम्हिते तदात्मनः समवाद्यन्तानाधृष्टवस्य नाधृष्यमित्याहनाधृष्ठगृह्ये तदनाधृष्यं देवा भिषस्तिपा अनभिषस्तेऽन्यषस्तिपाह्येतदनभिषस्तेऽन्यवेदीक्षा दीक्षामिद्याहारु वैतद्धृतं वै देवा वज्रं कृत्वा सोममघ्नन्ति कमिव खलु वा अस्ति तच्चरन्ति यत्ता नोमः प्रेण प्रचरन्ति स्यापुपायते यन्मीयते तदेवास्यैतेना व्यायजत्या तुभ्यमिन्द्र व्यायतामा त्वमिन्द्राय व्याजस्वेत्याहोभादेवेन्द्र च सोमं चाप्याययत्या व्याय सखी संज्ञा मेधयेत्याहर्त्विचो वा येतेऽस्माल्लोकाच्यवन्ते ये सोममाप्याजयन्तं परिक्ष देवत्यो हि सोम आप्याधिकेष्टाराय क्लेशे भगायत्याहद्या वा पृथिवेभ्यामेव नमस्कृत्यास्मं लोके प्रतितिष्ठन्ति देवासुराः संयत्ता आसन्ते देवाविभ्यतोऽग्निं प्रासन्तस्मादाहुरग्निस्सर्वा देवतायिजिते कृत्वा सुभवन्नग्निव खलु वा एष प्रविशति यो वान्तरीक्षामुपैति भ्रातुर्विजाभित्यात्मन परास्य भ्रादुर्विजो भवत्यात्मानमेव देक्षया पाति प्रजामवान्तरति क्षया सम्पदां मेघलादुम् समागच्छते प्रजाह्यात्मनोन्तरतरा तप्तौ व्रतोयते निह्यग्निशीते यति समिध्ये याते अग्ने रुद्रिया तनोरित्या हस्पति मै नद्देवतजातयति सजो नित्वा यशान्तिः तेषां सुराणां तिस्रः पुर आसन्नजस्मैरवमाथरजता सहरणी वादेवाजयतुं नाशक्नुवन्ता उपसदैवाजगीषम् अस्मादाहृदयश्चैवं वेदयश्च नोपसदा वै महाभुरन्त्रगन्तेषकुं समस्कुर्वथाज्ञमनेकुं सोमगुं शल्यं विष्णुन्दशमन्ते ब्रुवण्डि मामशिष्यतीति रुद्रयित्यब्रुवन् रुद्रो वे क्रूरस्व स्थ्वितिसोऽ ब्रवीपरं वृणाहमेवसु धिपतिरसा नीति तस्मात् रुद्रः पशूनामधिपतिस्तादुं रुद्रो वासृजत्सतिस्रः पुरोभ्युत्पयेभ्यो लोकेभ्योऽसुरान् प्राणिदत यदुपसद उपसद्यन्तेभ्या द्विरान्यामाहुतिं पुरस्ताहुयाद्यजन्यामाहुतिं पुरस्ताज्जुहुजां मुखं कुरुयात्सुवर्णाघारमाघारयति यज्ञस्य प्रज्ञाः क्रम्य दे जरा चेवेभ्यो जमाना ्रादृजान् प्रणुदते पुनरत्याक्रम्यसदन् भस जुहति प्रणुदेव भ्रादृसि देवा वैरातरुन् हस्ताखिरसुरान् प्राणुदन्तया सायगं रात्रिजयिताभिर्यत्साय प्रातरुपसदुपसजन्ते होरात्राभ्यामेव तद्यजमाना भ्रादृजान् प्रणुद तेजातयाज्ञास्यस्ताः सायं पुरोमवाक्याः कुर्यादयादयामत्वायति स्व उपसद उपैदियति मे लोकादिमानेव लोकान्विनातिषत्सम्पद्यं ते षड् बालितवधतो नैव द्वादशायेन सोम उपैति द्वादशमासा संवत्सरस्संवत्सरमेव प्रेणाति च गर्वगं सतिः सम्पद्यन्ते च गर्वं शजिरर्धमासा अर्धमासामेव प्रेमात्या ग्रामवान्तरदीक्षामुपे राज्यः कामजयतास्मिन्नेव व्यर्धपग्रस्यादित्येकमग्रे का छद्वावछद्रेण खचतुर एषा वा आरा दीक्षास्मिन्नेवस्मै लोकेऽर्धुकम् भवति परोवरीजसेमवान्दरदीक्षामुद्य कामये तामुष्मिन्नेव लोकेऽर्धुक्यस्यादिति चतुर्ग्रे शत्रेण छद्वावथैकमेषा वे परोवरीगस्य वान्दर दीक्षामस्मिन्नेवस्मै लोकेऽर्धुकम् भवति सुवर्गं वाजेते लोकञ यन्ति युपसदमुपयन्ति ते शाङ्गमुन्नयते हीयतदेव समोदनेशीतिसून्नीलमिवयो वै स्वार्थयताङ्गता विश्रान्तो हीयत उदस निश्च्याय सहवसजितस्मासकृतुं नीजनापरमुन्नजयत धन्नजयतैतद्वै पशोनादुं रूपगं रूपेणैव पशूनवरुन्धे यज्ञो देवे गौनिलाय तवि ष्णो रूपं कृत्वा सपृथिवे प्रावि दे सप्तं देवाहस्ता सम्यैन्तमिन्द्रमुपर्युपर्यत्यक्रमत्सोऽ मायमुपर्युपर्यत्यक्रमेदित्यहं दुर्गे हन्तेत्य सगस्त्वमित्यहं दुर्गादाहत्य सोऽब्रवेद् दुर्गे वेहन्तावोचथावराहोयं वाममाषः सप्तानां गिरेणां परस्ताद्वित्तम् जमसुराणान् विभर्जित हि यदि दुर्गेऽहङ्गासीति सदर्भपुञ्जीलमुद्गृह्य सप्तगिरेऽन्पादमहम् ्रवी दुर्गाद्वा आहर्तावोचथा एतमाहरेति तमेभ्यो यज्ञयेव यज्ञमाहरद्यत्तद्भित्तं वेद्यमसुराणामविन्दन्तं तदेकं वेद्ये वेदित्तमसुराणां वा निजमग्र आसेद्यावदासे मः परापश्चितावद्देवानान्ते अब्रुवन्नस्त्वमवेदिकीयद्वोदास्यामदियामधियुंस ृके त्रिः परिक्रामदितामन्मा दत्ते तिसयन्द्रः सलावृगे रूपं त्रित्वे मान्त्रिः सर्वतः पर्यक्रामत्तदिमामबिन्दन् तयदिमामबृन्दं तद्वेद्येदि त्वं सा वा निजगं सर्वैव वेदियति शक्ष्यामी तित्वा अपमाय यजन्ते त्रिगुं शत्पदानि पश्चात् तिरश्चिशत्रियुं शाची सम्पद्यन्ते दशाक्षरा विराणन्नं विराजैवान्नाद्यमवधन्ति यदेवास्याहमेध्यन्तदपहन्त्युद्धन्ति तस्मादोषध यः पराभवन्ति बलिः स्ृणाति तस्मादोषध यः पुनराभवन्त्युत्तरं बलिहगुत्तर बलिः स्तृणाति प्रजामे बलिहर्यजमानवोत्तर बलिर्यजमानमेव यजमानादुत्तरं करोति तस्माद्य मो जनादुत्तरः यद्वा अनीशानो भारमादत्रेऽपि वै सलिषते यद्वादशसाह्णस्योपसदस्य तिस्रो हीनस्य जज्ञस्य विलोमक्रियेण तिस्रजेन साह्णस्योपसदो द्वादशाहीनस्य यज्ञस्य सवे यद्वाजासरोमक्रियते वत्सस्यैकस्तनो भागैः शोषैकग्निस्तनम् व्रतमुपैत्यथद्वाेणुरजेतद्वै क्षुरभविनाम व्रतञ्जेन ैव चतुमेतद्वै सुजघन तपस्य तुं सुभर्ग्यमथो प्रैवजायते प्रजदा पशुभर्जवागोराजन्यस्य व्रतं क्रूरे भवेदवागो क्रूरजिवराजन्यो वज्रस्य रूपगुं समृद्ध्या आमे maye sthat svamana gnajna ropam busti payo bramha ते चोपैब्राह्मणस्ते चःपजस्तेज सैव ते जह्पज आत्मन्धत्ते चोपयसा वै वर्धन्ते गर्भय खलु वा जेषयद्येक्षितो यदस्य पयोजो व्रतं भवत्यात्मानमेव तद्वर्धयित्यव्रतो वै मनुरासेद्विव्रतासुराजेकव्रता दे देवात्रातर्मध्यन्तिने सायन्तन्मनोतमासेत्पाकजज्ञस्य रूपम् दे श्च सायञ्चासुराणार्मध्यं शुशोपं तदस्ते परा भवन् मध्यं दिने मध्यरात्रे देवान्तस्ते भवन् स्वर्गं लोकमाजदस्य मध्यं दिने मध्यरात्रे व्रतं भवति मध्यतो वा अन्येन भुञ्जते मध्य तजे व्रत दूर्जं धत्ते भ्राद्रुव्याभोक्त्यै भवत्यात्मना परास्य भ्रातृयो यष यद् दीहि क्षितो यो निर्देक्षितविमितं यद्देहि क्षितो देहि क्षितविमिता प्रवसेद्यथाभस्कन्द्रिगेवतं दे न प्रवस्तं यमात्मनो गोपीठायैषमेव्याघ्रः कुलगोपोयदग्निस्तस्माद्यद्देहि क्षितः प्रवसेत् स देवमेश्वरोनुक्ताय हन्तो न प्रवस्तं यमात्मनो गुप्ते दक्षिणतश्च ज एतद्वी यजमानस्यायतज्ञस्व येवायतनेशजयज्ञिमभ्यावृत्यशये देवतायेव यज्ञमभ्यावृत्यशे पुरोहविषदे व्रजनेराजयद्यङ्गामजेतोपै नमुत्तरो यज्ञानमेतभिसु वर्गं लोकं जयदित्येतद्वै पुरोहगर्ते व्रज नै यस्य होता पुरातरणो वागमनुब्रुवन्नग्निमपहादित्यमधिकृतशक्त्युपै नमुत्तरो यज्ञानमत्रिभिषु वर्गं लोकञ्जयत्याप्ते व्रजनेराजय भ्राद्रुव्यजवन्तं पन्थाम् वासिस्पर्शदे न सेजातवैन रथादे तद्वाप्तन्दे भजनमात्मोत्येव भ्रातृजन्नैनं भ्रातृज आत्मोत्येकोन्नते भजनेन पशुकाममेकोन्नताग्जनादङ्गिरसः पशूनसृजन्तान्तरासदोहाने उन्नतज्ञ स्यादे तद्वा एकोन्नतं दे भजनं पशुमानेव भवति र्गं लोकमायं च विर्धानं चोन्नतज्ञस्यादन्तराह निर्धानं च सदश्चान्तराहश्च कारुहवर्त्यं चैतद्वैन्द्रियं नन्दे व्यजनगं स्वर्गमेव लोकमेति प्रतिष्ठिते प्रतिष्ठाकाममेतद्वै प्रतिष्ठितं दे त्येव तिष्ठति यत्रान्या अन्या ोषयोषास्यस्तद्याजयत् पशुकाममेतद्वै पशु नागं रूपगुं रूपेणैवास्मि पशुनवगन्ध पशुमानेव भवति निरुदिगृते राजयत्यङ्कामजय जनिर्नृत्यास्य विद्यं गाहजत्येतद्भै सत्या ऋक्षण् निर्नृत्यैवास्य ्यावृत्ते देवजने राजयत्कामेयं पात्रे वा द्ये वाचीनमाहवीयात्मनव्यस्याय तद्वै विवृत्तं देवजनं विपाप्मया भातृव्यवर्तते नैनं पात्रे नीमागुं सन्दे कारुजे देवजने राजदे भूतिकामं कार्यो Guev referred on as you said भ्यमुत्तरवेदिहे लोकं कृत्वा भजानन्तरावक्रम्या तिष्ठत्ते देवामन्यन्तज परानवादिजमुपाभक्षदिकजितं भविष्यन्तीतिपामुपामन्त्रयन्तसाभ्रते द्वरं वृणैः सर्वान्मया कामान्यश्यवसपूर्वान्तुमाग्नेराहुतिरस्न्यवधारिति तस्मादुत्तरवेदिं पूर्वामग्नेर्व्याधारयन्ति वा ैषं यजातैवास्येशासो युक्ते नैव युक्तमवयुन्धमेसेत्याह वित्ता ह्ये नानावत्तायमेसेत्याह धिक्ता निह्ये नानाभवतान्मा नाथितमित्याह नाशिता निह्ये नानाभवतान्मा विरचितमित्याहविदथितानि ह्ये नानावद्भिजयज्ञ नामाग्ने हरदियदेवेष्मयस्तानेवावरुन्ध कृष्णे चतुर्थगं हरत्य निरुक्तमेवावरुन्धुरूपं ऋत्वपतिः प्रथ आमित्याहज मानमेवायः प्रथयति सगुं हन्दिन्धस्व देवैर्य शुभस्वेत्यवचोक्षति प्रचकिलति शुद्ध्या इन्द्रघोषस्त्वा वसुभिः पुरस्ताहात्पात्वित्याह दिव्यदेवैनां प्रोक्षणि देवानिश्चेदुत्तरवेद्य विजया महादित्यसुरावज्रमुद्यत्य देवानभ्यायन्ततानिन्द्रघोष वसुभिः पुरस्तादपानुदतमनोजपाः दक्षिणतः प्रचेता रुद्वैः पश्चात् विश्वकर्मादित्येरुत्तर यदेवमुत्तरवेदिम् प्रोक्षति दिभ्यदेव तद्यजमानो धातुन्द्रो यदिजेजः प्रायच्छताम् दक्षिणत उत्तरवेद्य आदनि यत् प्रोक्षणीमामुच्छिष्ये तद्दक्षिणत उत्तरवेद्यै न ये यदेव तत्र क्रूरम् तत्त्वेन शमयति जम् द्विष्यात् सन्ध्याजयच्छ मर्पयति सोऽकरवेतिरब्रवेत् सर्वान्मया कामान्यस्नवचेति ते देवा अकामयन्ता सुराण् भादुरुभवे वेतिते जुहवस्विम्भे रसि च पद्मसाहे स्वाहेतिते सुरान् भ्यादुरुभ्यभवन्ते सुराण् भ्यादुरुभिभूया कामयन्ता प्रजान् विन्दे महेदिते जुहवसि कुम्भे रसि प्रजामनिस्वाहेति प्रजामबिन्दन्त त्वा कामयन्त पशून् विन्दे मही रिते जुहवस्य गिन्हे रसिराजस्पोषवने स्वाहेति पशोन् विन्दन्त ते पशून् वित्त्वा कामयन्त प्रतिष्ठां विन्दे मही जितेजुहवस्यदित्यवने देवता न्दजमानाजस्वायेतदेवयति पञ्चाक्षरां तिपान्तो यज्ञो यज्ञमेवयति तस्मादक्ष्मजा पशवाङ्गानि प्रहनन्त्यप्रतिष्ठत्यै भूतभ्यस्तृषमुद्गृह्णाति यदेव देव भूतास्तेषान्त प्रीणाति यस्पतिष्वसत्तां भूतु द्रौ यामोषधे सुतालुं सुगन्धितेसुतां पे त्वस्यां करा ङ्गेतं देवताः प्रैतमेच्छन्तमन्दविन्दन्तमब्रुवन्नुपनहारस्वदिषो ब्रुवेज्वरं वृणय देव तस्याहुतस्य बहिः परिः स्कन्दात् तन्मेमसदयि तस्माद्यद्रिहि तस्याहुतस्य बहिः परिधिः स्कन्दां तद्भागधैरं दानेव तेन प्रीणाति सोमन्यथा स्थन्वन्तो मे भ्यातरः प्रामेशतास्थान्यसातजागतिषजान्यस्थान्यसातय तव पोतु ग्रवः वध्यन्मा समुपदितम् तद्गुल् गुरु यदेतान् सम्भारान्सम्भरत्यग्निमेव तत् सम्भरत्यग्नेः पुरेशमसीद्याहाग्नेऽर्ष्येतत् पुरेश यत्सम्भारासौखल् बाहुरेते वा तेभ्यातरः बद्धमवश्च जिवरुण वाशा देवैने मुञ्चति प्रणेनेत्रिवेध्य देवेने करोति सावित्रियर्जा हृद्वाहवद्धाने प्रवर्तयति स विदुरप्रसूत देवैने प्रवर्तयति वरुणो वादेश दुर्वादुभजतो बद्धोयलक्षस्य यदुत्सर्जेद्यजमानस्य गृहानभ्युत्सर्जेत्सुवाद्य दुर्योमा वदेत्याह गृहा पत्नेः सर्वस्य मित्रं मित्रत्वा जयद्वै पत्नी यज्ञस्य करोति मिथुनन्द तथो पत्नीगादेवैष यज्ञस्यान्वारम्भो नवच्छित्ते वर्त्मना वा अन्वित्यज्ञकं रक्षादं त्रिजातुं सन्ति वैष्णवेभ्या मृग्भ्यां वर्त्मनोऽर्जुहोति यज्ञा वे विष्णो यज्ञा देवक्षाविपहन्ति जगध्वर्युरमग्नाहुदिञ्जुहजागन्धो हिरण्यमुपात्यग्निवत्येवनान्धो रक्षातुं सिंहन्त्यप्राचीप्रेतमध्वरं कल्पयन्ति इत्याह सुवर्गमेवै नैव यजतुं शिरोवादेतद्यज्ञस्य यद्धलं दिवो वा विष्णबुध वा पृथिव्यायित्याशीर्पदयच्चानक्षिणस्य हिर्धानस्य मेथेन्निहन्दिशेर्षतदेव यज्ञस्य यजमान आशिषोऽवरुन्धे दण्डो वा औ परस्तृतीयस्य विर्धानस्य वृद्धानस्यावरुद्धे शिरोमायेतद्यज्ञस्य यद्ध विर्धानं विष्णो रतामसि विष्णो हाः पृष्ठमसेत्याह तस्मादेता बद्धा शिवो विष्योतम् कृष्णोऽस्योरसि कृष्णार्ध्वमसेत्याह वैष्णवगुं हि देवदराह त्यभ्रमादत्ते प्रसूत्याश्विनो बाहुभ्यामित्याहाश्विनो हि देवानामध्वर्यो आस्ताहं पोष्णो हस्ताम्भ्यामित्याहजत्ते भज्रजि भवाजेशायभ्रडसि नृसेत्याहसान्त्ये काण्ड काण्ड वै क्रियमाणे जज्ञगुं रक्षः परिकिता अरागजयित्या रक्षसो ग्रीवा अभिकृन्ताभिजोऽस्मान् द्वे श्रियं च भयं विष्मयित्या हद्वौ वापपुरुषौ यञ्च द्वे श्रिरश्चैनं द्वे दर्वाचीं प्रोक्षति तस्मा परस्ता दर्वाचीं मनुष्यावोर्जमुपजीवन्ति क्रोरमिवत्कलोति यत्खनत्यपोपनयति शान्त्यैरवैरवनयत्योर्वैरव ऊर्गुदुम्बर ऊर्जैवोर्जगुं समर्धयति यजमानेन संमितौ दुम्बरी भवति यावा नैव यजमानस्तावतीमैवास्मिन्नोर्जन्तलि तृणागुं सदन बर्हिरवस्त्रणादिपि दृदयत्या द्विह्येतद्यं निखात यद्बर्हिरनवस्ते ऋजमिनयापि तृदयवत्या निखाता स्याद्बलिहिरवस्ते ऋजमिनात्यस्यामेवैनाहं मित्यसो स्वारुहमेवैनाहं करोत्युद्धिवस्तथानान्तरिक्षं प्रणयत्याहेषां लोकानां विधृत्यैद्युता नस्त्वा म्बले मिनो जने ्रह्मवनिं त्वा क्षत्रवनिमित्याह यथा न वा पृथिवी आवृणयथामित्यौ दुम्बर्याञ्जुहो दिद्या वा पृथिवी देवरसेनानत्यान्तमन्वस्रावयत्यान्तमेव यजमानं तेजसा नत्यैन्द्रमसीति छदिरधित्यैन्द्रगिन्वतया सदो विश्वजनस्य छाजेत्याह विश्वजनस्य तोमेन संवितन्ते जस्त्रिवृत्तेजस्व्यत्येकादश छदीन्द्रियकामस्त्यैकादशाक्षरात् त्रिन्द्रियं दृष्टिगिन्द्रियाव्यदश्यातृर्जवतः पञ्चदशो वज्रो भ्रातृजा विभूत्ये सप्तदश छति प्रजाकामस्त्य सप्तदशः प्रजापतिः प्रजापतेराध्यायेकविंशति छति प्रतिष्ठा कामस्त्यैके तोमानां प्रतिष्ठा प्रतिष्ठरं वै सौदुम्बरे मध्यत दधाति तस्मान्मध्यत भोज्या भुञ्जते यजमान भोगे वै दक्षिणानि छदेशिभ्रागवुत्तराणि दक्षिणान्युत्तराणि करोति यजमानमेव यजमानादुत्तरं करोति तस्माद्य क्तान्तरो दिव्यावित्यैतस्मादरण्यम् प्रजा उपजीवन्तिर्वमविरयत्याह यथा यजुरेवैतदिन्द्रस्य स्योदसेन्द्रस्य ध्रुवमसेत्याहेन्द्रबुन्हि देवतया सदोजम् प्रथमम् ग्रन्थिम् रथ्नेजाद्यविस्रगुम् स चेतमे हेनाध्वर्यप्रमेत तस्मात् स शिरो वा वेतद्यज्ञस्य यद्ध व्यर्धानं प्राणा उपलवाह व्यर्धाने खायन्ते तस्माच्छीर्षन् प्राणा अधस्ताः खायन्ते तस्मादुधस्ताः शीर्ष्णः प्राणारक्षोहणोऽवलगहमो वैष्णवान् खणामेत्याह वैष्णवाहि देवतयोपरवासुरावेयन्तो देवायाम् प्राणेषु बलगान्य खनन्तान् बाहुमा तस्माद्बाहुमात्राः खायन्त इदमहन्तं बलगमुद्वानि यन्नः समानो य समानानि च खायत्याहद्वौ बाबपुरुषो यश्चैव समानो यश्चासमानोजनेवास्मै तौ भागन्निखनतस्तमेवोद्भवति सन्दृणत्रितस्मात् सन्दृह्णान्दरतः प्राणसम्भिनत्रितस्मात् सम्भिन्ना प्राणापोपनयति तस्मादार्द्रा न्तरतः प्राणायवधिरवयत्योर्वै यव प्राणा उपरवाः प्राणेश्वेवोर्जन् दधा दिवधिरवस्तृणाति तस्माोमसा अन्तरतः आज्यं प्राणा उभरवा प्राणेश्व जो यज्ञस्य यदधिषवनेन सन्तृण च सन्तृण्ये अथो खलु दीर्घ प्राणा ृत्यै शिरोमाजेखादं गच्छति यदा मुखं गच्छत्य सोदरं गच्छति तस्माध्वर्धानर्म वेद्यसदसि भक्षयन्तिजो वैर्विराजो यज्ञमुखेजोऽहं वेददुहजय वै मा बिजं वै विरात्तस्ते विरा त्वत्सर्मोऽसो दुषमनेस्तना उपरवाग्रावाणो वत्सारि त्रिजो दुहन्ति सोमप्पयो य एवं वेददुहजय वै वे मा त्वादा धृष्णिजानुपभवतियो निर्वैर्यज्ञस्य सात्वा वै यज्ञस्य स यो नित्वा यदेवा पराजयं यज्ञं पराजयन् ततमाग्नेः ध्रात्पुनरपाजयन्नेतद्वै यज्ञस्य अपराजितं यदाग्नेः तै यदाग्नेः विहरति यदेव यज्ञस्य पराजितं दतयवेन पुनस्तनुते पराजित्येव बहिष्पवमानकं सर्पं दिवहिष्पवमाणे स्तुत आहाग्नेदग्नेन विहर बरिहस्तृणाहि कुरोडासा लङ्कुर्विति यज्ञमेवापजित्य पुनस्तन्वानायञ्जङ्गेर्द्वे सवने विहरति सलागाभिस्मृतिजगुं सशुक्रत्वाया सोसंभरत्येवैनद्धिष्णिजा वा अमुष्मण्डलोके सोममलक्षन्ते ज्योतिसोममाहरन्तमन्भवायन्तं परिजविशं वेदविन्दते परिवेष्टारन्ते सोमपि सेनव्याहार्ध्यन्त ते देवेषु सोमपि समैः ीठं प्राप्नुवन्नाः वणिरः त्रियोमार्जालीयस्तस्मात् तेषु जुह्वे ते सोमपीठे ुरा आसन्तागस्ताभिः प्रानुदं तजा प्रतीचीर्ये पश्चादसुरा आसन्तागस्ताभिर्पानुदं त प्राचीरण्या आहुतयो होजन्द्रे प्रत्यङ्गासीन कृष्णयाञ्जाघादयति पश्चाच्चैव पुरस्ताच्च यजमानो भ्राजो प्रणुदते तस्मात् पराजे जायन्ते प्राणावादेते यद्धिष्णिजाय तद्ध्वर्यः प्रत्यङ्गति सर्पे प्राणान् सङ्कर्ष प्रमायुगस्यान्ना धर्वायेषा यज्ञस्य यद्धोतोर्द्वत्खलु वैनाभ्ये प्राणो वानपानायद ध्वर्यः प्रत्यङ्गता रमति सर्पेतपाने प्राणं दध्या प्रमायुगस्यान्नाध्वर्युपद यदुद्गात्रे वात्सु संप्रयच्छेदुपदासु कास्य ब्रह्मवादिना वदन्ति न सगस्थिते सोमेज प्रत्या निहोतु मे तिजा मोहि सतेषाङ्कस्माह देवायामम्बायामम्बानुज्ञास्यन्ति म्पीत्यजुहोति दाक्षिणानि न प्राणान् सङ्कर्षति न्यन्ये धृष्णया उप्यन्ते नान्येयान्निपति ते न तान् प्रेमातिजान्न निपपति तनु दिशति सुवर्गाय वा यानि लोकाय हूयन्ते यद्वै सज्जनानि द्वाभ्याङ्गाय भवत्येजुहोरिक्षदेवाक्रमल आहवनीते सुवर्गमेवैनुमयति देवान् वै सुवर्गं यतो रक्षागस्य जिघागिं सन्तेऽसो मेधराज्ञा रक्षागस्य महत्याप्तुमात्मानन्द कृत्वा सुमायं रक्षसा मनुबलाखायात्तसोमो भवत्य स वै सर्जनानि रक्षसा मदहत्यै त्वं सो मतनो गृद्ध्यो कृषद्वेषु तासिवरोत्समित्याहो ऋणकृहजुषामोप्तु राज्ञस्य मे वयजमानं कृत्वा सुवर्ग ङ्ग गङ्गमजुति रक्षसा मनुबलाभाया सो मन्ददधहा द्राविण्महावायं द्रोणकलसमुपत्नी मानयन् जन्मनागंसि प्रवर्पयन्ति यावदेवास्यास्ति सह सुवर्गं गोगमे दिनयवत्यर्चाग्नेहोतिसुवर्गस्य लोकस्याभिने द्राविण्मावायं या निद्रोणकलसमाग्नेध्र उपवासयति ेन तयेर्गृह्णते यत्सहोपपासदेत पुदय प्रपादयति स्वयैनं देवतया प्रपादयत्यदित्या सदोऽ सदासीदेत्याहयसाजुदेवैतद्यजमानो वादेतस्य पुरागोक्ता भवत्येशवो देव सरितः सोम जित्याह सरितृप्रसूतदेवैनं देवताभ्यः सम्प्रेक्षत्येतत्त्वगुं सोम देवो देव त्याह देवोह्येषानुपैदमहम् दे दे मनुष्यान मनुष्यो मनुष्यानित्याह मनुष्योषसन् मनुष्यानुपैतिजदेतद्यजन्मभ्यूजादप्रजापसुर्यजमानस्यात्सह प्रजया सह राजस्पोषेणेत्याः प्रजयैव वसुजः सहेमङ्गाकमुपावर्तते दे नमो देवे नमस्कारो हि देवाना स्वथाः स्वथाकारो हि पितृणामितमहं निर्वरुणस्य पाशादित्याह वरुणपाशादेव निर्मोक्षो राजेत्यावाणो वेसोमस्य राज्ञो मलिं रुसेनाय देवं विद्वाङ्ग आग्ने तरुपवासयति नैनम् बलिम् लुसेना विन्दति वैष्णव्यर्जाहृद्वाजोपमच्छैदिवैष्णवो वै देवतयाजोपस्वजै वैनं देवतयाच्छैत्यत्यज्ञानगान्नान्यानुपागानेत्याहादेह्यं ज्ञाने दिनान्यानुपैत्यनुवाग्वा परेदविदं परोभरेत्याहारुपाघं परेविन्दो वैस्पन्द्वाजुषेवैष्णवं देवज्याजादित्याह देवज्यादेह्यै क्वित्याह तेजसै वै नक्त्योस्वसिते मै नेरित्याहवज्रो वैशास्वभ्यतः समेन शकलेन सहते जः परापतः परापतेहरेत्स तेजसमेवै नमाहरति मे मै लोकारूपाः ृक्षाणां समुत्तिष्ठन्ति सहस्रबलिषा मेत्याहासिष मे वैतामाशास्त्यक्षसङ्गं वृश्चसङ्गं वृश्चेदं यजमानस्य प्रमा कग्नि स्याद्यं कामजेता प्रतिष्ठितस्यादित्यारोहं तस्मै वृश्चे तस्मै शुष्काग्रं वृश्च यः पशुमाने वति प्रतिष्ठितं वृश्चेत् प्रतिष्ठा कामस्येषवै वनस्पतीनां प्रतिष्ठितो यः समे स्वाद्योरूढः प्रत्ययव तिष्ठति यः प्रत्यङ्गेत्स हि मेधमभ्युपनतः पञ्चारत्नं तस्मै वृश्चेद्य ष्ठागामस्य षड्वादुष्वप्रतिष्ठ सप्तारत्नीं पशुगामस्य सप्तपदाचक्वरी पशवश्चरी पशूनेवावरुन्धेनवारत्न्यं तेजस्गामस्य त्रिवृता स्तोमेन संवितं तेजस्त्रिवृत्तेजस्येव भवत्यैकादशारत्निमिन्द्रियकामस्यैकादशाक्षरा तिपृगिन्द्रियं त्रिष्पृगीन्द्रिया भवति पञ्चदशो वज्रो भ्रादौजा सप्तदश प्रजावदराकविगुंसत्यरत्न्यम् प्रतिष्ठा गामस्यैकविगुंस स्तोमानाम् प्रतिष्ठा प्रतिष्ठत्या अष्टाश्रग्भवत्यष्टाक्षगा गायत्री तेजो गायत्री गायत्री यज्ञमुखम् जयजसैव गायत्रियादज्ञमुखेन संवितः जे त्वान्तरिक्षाय त्वादिवे त्रेत्याहैभ्य वैनं लोकेभ्यः प्रोक्षति पराहं सम्प्रोक्षति परानि बहिषु वर्गो लोकस्त्रोरमि भवायत्तरोखनत्यपोवनयतिशान्त्यै यवमते रवनयत्योर्वैयवो यजमानेन यो मस्संमितो यावायव यजमानस्तावतीमेवास्मिन्नोर्जन्दसारिमितृणां सदनमसीरि वस्त्रणादिपुत्र दे देवत्या निखातं यद्बर्हिवस्त्रे निखातस्यास्त्रेनात्यस्यामेवैनं देवस्त्वा सितामध्वानक्तिहतेनक्तिपदाभ्यस्तौषधेर्घ इति चषा संवृतिमुञ्जति ष्ठाश्रिस्संता यदग्निष्ठामश्रिमनक्ति यजमानमेव तेजसा नक्त्या मनक्त्यान्तमेव यजमानं तेजसा नक्ति सर्वतः परिसत्यपरिवर्गमेवास्मिन् तेजोगधात्युद्धिवर्गस्तभायान्तरिक्षं प्रणयत्याहेशां लोकानां विधत्यैव वैष्णव यैष्णवो वै देवतजायोपस्म ैवैनं देवदजा कल्पयतिष्ठत्यै कामज ततेजसेनं देवताधिरिन्द्रिय अव्यर्थय जमित्यज्ञेष्ठान्तीमाहवनेजादिनामजे त्यजसैवैनं देवताधिरं द्रिय अव्यर्थयतिजं कामज ततेजसैनं देवताधिरं द्रिय न समर्थय जमित्यज्ञेष्ठान् तस्या श्रीमाह ब्रह्मवनिन् त्वा क्षत्रवनिमित्याहयुरेवनेन संमितो यजमानमेवोर्जानर्थय दिनाभिघ्नेव यदिनाभिघ्नयेवास्मा गोर्जं दधान्नाभिघोर्जा यं कामज दोर्जैनं यर्भजय जमित्योर्ध्वां बालस्यावाचिं बामोहे दो। दोर्जै वैनं यदि कामय मम पर्जन्यस्यादित्यवाचेमवो हे दृष्टिमेव निगच्छति यदि कामज कामरुणस्यादित्योर्ध्वा मदुहे दृष्टिमेवोर्गच्छति तृणान्निखागं मनुष्याणामोर्ध्वं निखाकादारसनायाभोषति देवानांगुं रसनाया चषालादिन्द्रस्य चषालगुं सां सवादेश सर्वदेवत्यो यद्योपो यद्योपं विनाति सर्वादेवदेवता प्रीणाति यज्ञेन वेदेवासुवर्गं लोकमायन्ते मन्यन्तमनुष्यानान्वा भविष्यन्ति जिते रूपेण योपयित्वा सुवर्गं लोकमायन्तमृषयोपेण द्योपस्य योगत्वै यद्योपं विनोति सुवर्गस्य लोकस्य प्रज्ञाच्चै पुरस्तान् विनोति पुरस्ताद्धयज्ञस्य ज्ञामग्निं वचित्वा प्रहरत्यतिरिक्तमे तद्योपश्च प्रेणाति देवाभिसस्थिते सोमे प्रसृजो हरं प्रयोपन्ते मन्यन्त यज्ञवेशसं वा इदं कुर्मगसृजायणमवश्यान् स्वरि योपश्च सिते सोमे प्रस्तरकं हरतिजु स्वरुम यज्ञवेशसाया ध्या वै देव अस्मिन् लोक आसन्नान्यत्किञ्चनमिषत्ते यदा लम्भ्यमविन्दं ततो वा इमास्प्रजास्प्रायन्त यदग्नाभग्निम् अथित्वा प्रहरति प्रजानाः प्रजननाय रुद्रो वाजेषयदग्निजमानः प्रसरु यत्पशुमालभ्याग्निं मन्थेः दुद्रा यजमानमपि दध्याप्रमाय युगस्यादथ खल्बाहुरग्निस्सर्वा देवता हरिरेतद्यत्पशुरिजयत्पशुमालब्धान्मन्थति हव्यायैवासन्नाय सर्वा देवता जनयत्युपाकृत्यैव मन्ध्यस्तन्नेवलब्धन्नैवानालब्धमग्ने जनित्रमसेत्याःग्नेतज्जनित्रं वृषणौ स्थयित्याह मृषणौ ह्येतासे्याहमित्वाय हृदयना न्दधामित्याहषण गृह्ये ते दधा तेजे अग्निङ्गायत्र छन्दानु प्रजायस्वेत्यान्दोनं मथ्यमानायानु ब्रूहेत्याहसावित्रे मन्थति जातायानु ब्रूहि प्रह्रियमाणायानु ब्रूहेत्याहकाण्डे काण्ड एव गायत्रे सर्वा अन्वा प्रचन्दावा छन्दा वा अग्निश्वेनैवै न्छन्दसा समर्थयत्यग्निः पुरा भवत्यग्निम् अजित्वा प्रहरतितौ सम्भवन्तौ यजमानमभिसम्भवतो भवतन्नः समनसा वित्याहसान्त्ये प्रहृदजहोदजातायैवा स्मानम् नमविदधात्याज्येनतद्वा अग्ने प्रियन्धामजदाज्यम् व्रियेणैवैनन्धान्ना समर्थयत्यथोदेन सा ह्यो रसेत्याहोपह्ये नानातरोत्युपो देवा दैवत्या हृदैवेर्येता विषस्सते हद्विजो वै वह्नस्तस्मा देवमा हरिहस्वज धारसूनीत्याहब्रह्म वै देवानां हस्वर्ब्रह्मणैवास्मै पशो नवरुन्धे हरिजय दे स्वदन्तामित्याहस्वदयत्येवै मां देव त्वष्टर्वसुरन्वेत्या हत्वष्टावै पशु मां पसुनामागुमरूप भगद्रोपमेव पशुपदधातिरेवती रमध्वमित्याह वसवैरेवती पशूनेवास्मै रमयति देवस्य त्वासविदुःप्रसवजितिरसनामादत्ते प्रसोत्याश्विनाः स्ता उष्णो हस्ताभ्यामित्या हयत्या रतस्यत्वादेव यत् पशुरपाम्बेहसीत्या हेश्यपाम्बातायो मेधाते स्वात्तञ्चित्सदेवकम् दे हव्यमापो देवी स्वरतैन विद्याहस्वदयत्येवैनमुपदिष्टा प्रोक्षत्युपदिष्टा देवैनं मेध्यम् करोति दे देवैन मेध्यम् करोत्यधस्तादुपोक्षति सर्वत देवैनम् मेध्यम् करोति अग्निना होत्रा देवा असुरानभ्यभवन्नग्नदश मध्यमानादानोहेत्याभ्या सप्तदश सामिरन्वा सप्तदशः प्रजापतिः प्रजापतेराप्ति सप्तदशान्वाह द्वादशमासाः पञ्चर्तवस्सरः संवत्सरं प्रजा अनुप्रजायन्ते प्रजानाः नाय देवा वे सामिरमाच्य यज्ञन्नान्वश्च प्रजापतिस्तोष्णे माघारमाधारयत्ततो वेदेवायज्ञमण्डपश्च न यत्तोष्णे माघारमाधारयति यज्ञस्यानुख्यात्या असुरेषु वेदज्ञ आसीत् तं देवास्तोष्णेभोमे मा वृन्दत यत्तोष्णे माघारमाधारयति भ्रातृ यस्त्येव तं यज्ञं वृन्देन् संमाह्ष्णिगुनात्यवेमा ृद्धि जज्ञाथो रक्षसामहे द्वादश संपद्यन्ते द्वादशमासामेव प्रेमात्य स्म उपदधाति सुवर्गश्च लोकश्च समष्टि शिरोवाजेतज्जज्ञश्च जगाघारो सर्वा देवता यदाघारमाघारयति शीर्षत देव यज्ञश्च यजमानः सर्वा देवता अवरुन्धे शिरो एतद्यज्ञस्तेदाघार आत्मा पशुराघारपाघारपशुगं समनक्त्यात्मन्येव यज्ञस्य शिरः प्रति तथा दिशङ्के प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वेत् प्राणो वायावेस्य प्राणन्दुहो दिसङ्गशत्रेदङ्गादि यज्ञपतिनाशिषेत्याह यज्ञपतिमेवास्याशिषं गमयति विश्वरूपो वेत्त्वाष्ट्र उपरिष्टात् पशुम तस्मादुपदिष्टात् पशोर्णावद्यन्त्युपदिष्टात् पशुगं समनक्तिमे ज्यमेव यद्विजो वृणेते छन्दागस्येव वृणेते सप्त वृणेते सप्तग्राम्याः पशवः सप्तारण्या सप्त छन्दागस्त्यभजस्यावयुध्या एकादशप्रयाजा यजति दश वे पशवः प्राणा आत्मैकादश यावानेवस्तं प्र यजति पवामैकः परिषय आत्मैवात्मानम् परिषये वज्रो वै स्मृतिर्भज्रजोपश खलु घृतम् खलु वै देवा वज्रम् कृत्वा सोममग्नम् घृते नाक्तौ पसुन्द्राजयमित्याहवज्रेण वैनम् वशे कृत्वा लभते परिलज्ञकरोति सर्वहुतमेवैनम् करोत्यस्कन्दाया करो स्कन्दकं हितद्धृतस्य स्कन्द तित्रिः परिजज्ञकरोति त्र्या वृद्धिजज्ञोऽ सौ रक्षसामवहत्यैवादिनो वदन्त्यम् आरभ्य पशृह्णान्वारभ्या इति मृत्यवे वा एष नीयते यत्पशुस्पयदन् वारभेदप्रमायुको द्विचमास्यादसो खल्वाहस्वर्गाय वायेषाय नीयते यत्पशुभितिजन्नान् वारभेदसुवर्गालोकाद्यमानो हीर्यवणेभ्या नन्वारभते तन्नेवन् वारभ्यन्नेवानन्वारभ्यमुपप्रेष्यहोदर हव्या देवेभ्य इत्याहे हि कर्म क्रियते ज्ञपतिम्बथा विषतेत्याह यथा यजुरेवैतदग्निना पुरस्तादेति रक्षसा यत्यमानात्मशुभ्यदेव तं निन्दुल आत्मनो नास्काय गच्छति श्रिरं प्रपशूना पुन दुज एवं वैतपस्यान् लोका नमस्तः आका नेत्याह नित्यस्य वैरश्मय आतानास्तेभ्यदेव नमस्तर्वा प्रेहेत्याह भ्रातुर्वा भ्रातुर् सह प्रजया सह राजस्पोषेणेत्याः शिषमेवैतामासा सहापो देवी शुद्धाय वैत्या हरिथायुजुरेवैतत् लब्धस्य प्राणान् सुगृच्छति वा त्यायताम् प्राणस्त आप्त्यागतामित्याह प्राणेभ्योऽपृथिवेशति समहाभ्यामिति निनयत्यहो रात्राभ्यामेव पृथिव्यायुं शमयत्य पार्श्वद आच्छ्यध्यतो हि मनुष्या आच्छन्ति तिरश्चे नमाश्रत्य नो चेदुम् हि मनुष्या आत्स्यन्ति विजावृत्यै रक्षसाम् भाग सेतिस्थभिमतो बलिधिरक्त्वा पास्यत्यस्मै वक्षागुंसि निरवधयन विदमहघुम् रक्षोथमम् तमो नजामिजोऽस्मान् द्वेष्ठियञ्च भयम् विष्मयित्या हद्वौ भावपुरुषौ यञ्च द्वेष्टियश्चैनन्द्वे ुभावमं तमो नयतिशे त्वेति यद्वक्षिदत्युर्वन्तरे क्षमन् विहेत्याशान्ते प्रवायशोऽस्माल्लोकाश्रवते यः पशुं योभिः स्तोकानामित्याहतस्माद्विभक्ता स्तोका अवगध्यन्ते ग्रं वा एतत्पशूनायद्वपा ग्रवौषधीनां बलिहिरग्रे नैवा ग्रगुं समर्थयत्यथोमौषधीष्वेव पशून् प्रतिष्ठापयति स्वाहा कृतेभ्यः प्रेष्येत्याहजज्ञस्य समिष्ये प्राणापानौ वा येतौ दारु पशूनाय त्मा वपा पृषदाज्यमभिघार्य वपामपि खादयतात्मन्येव पशूनाम् प्राणापानो जघादि स्वाहोर्ध्वनभसम् मारुतम् गच्छदमित्याहोर्ध्वनभाहस्म वै मारुतो देवानाहाम् वपाश्रवणे प्रहरदिदेनै वै ने प्रहरदिविशोजे प्रहरदितस्माद्विश्वञ्चरो प्राणापानौ पशुमालभ्य पुरोडा सन्नर्भपति समेधमेवै न मालभदेव पयापचरिज पुरोढासेन प्रचरत्योर्पे पुरोडा समोर्जमेव पशूनां मध्यतो दधात्यथो पशोरेव छिद्रमपि तथा जिवृषदाज्यस्य पहत्यधिः पृच्छति शतगं हवी शमितरिः त्रिषत्या हि देवायोशतगं शतमाहसेन सा प्राणापानो वा देवौ पशूना ृषदाज्यम् रसौ खलु पशूनाम् प्राणावाशुना वै देवास्वर्गं लोकमायन्तानुष्या माण्ड् वा भविष्यन्तीति तस्य शिरश्चित्त्वामे प्रक्षो भवन्तप्रक्षस्य प्रक्षत्वक्ष शाखोत्तर समेधस्यैव पशोरवद्यति पशुं वये ह्रियमाणं रक्षादिस्यनुसन्देऽधरायुपञ्चाहवनीगं च हरति रक्षसामपहत्येर्वालब्धस्य मनापक्रामति मनातादेहरिषामदेब्रूहेत्याहमन एवास्यावरुन्ध एकादशावदान्यवद्यति रस वै पशोः प्राणा आत्मैकादशो यावानेव पुशस्तस्यापद्यति हृदयस्य यथा पूर्वमवदायसा काममुत्तरेषामपद्यति तथा पूर्वमेवास्य पशोरवत्तं भवति मध्यतो गुदस्यापद्यति मध्यतो हि प्राणमुत्तमस्यावद्यत्युत्तमो हि प्राणो यदेतरयतीतरमुपजमे यमानोवेणस्त्रिणवाचार ब्रह्मचल्येन जः प्रजया पितृभ्य देशवा अनृणयः पुत्री यज्वा ब्रह्मचारि वासी तदपदा नैरेवापदयत तदपदानामपदा रक्तं वासुरासंयत्ता आसन्ते देवा अग्निमब्रुमन्त्वया वीरेणासुरानभिसोद्वरं वृणे पशोरुद्धारमुद्धराय दि सजेतमुद्धारमुदहरवार्धस्य बुदं मध्यपोण धनार्धश्च ततो देवा अभवन् परासुराय त्र्यङ्गानागुम् समवद्यति भ्रातुरुजातिभूत्रे भवत्यात्मना परास्य भ्रातृजा भवत्यक्षणया गद्य तस्मादक्षणया पशवोऽङ्गानि मेदसाशुचौ प्रोर्नोति मेदो रूप वै रूपमेव पशुषु दधाति जोषण्णवधाय प्रोर्णोति वसो वादेश पशूनां यद्यो रसमेव पशुषुदधाति पार्श्वे न वसाहोमं व्रजौति नवसाहोमं व्रजौति रसं दधा जघ्नन्दि some hmmm नपयन्तेन्द्रः खलु वै देवतया प्राण ऐन्द्रोपान ऐन्द्रः प्राणोऽङ्गे अङ्गे निधेत्याः प्राणापाना वेवत्वष्टूरिते सगुं समे तृत्या हत्वाष्टा हि देवतया पशवो विषरूपायत्स लक्ष्माणो भवथेत्याः विषरूपाह्ये ते षन्धः सलक्ष्माण ये दिः दे भवन्ति दे देवत्रायन्तमवशे सखाजो नु द्वा माता ित्याहानुमदमेवैनं मात्रापित्रा सुवर्यं लोकं हत्या हवनस्पतरेणुब्रूहि वनस्पतरे प्रेष्येति प्राणापानादेव पश्चादित्यमेधस्कन्दस्मा आदध्यान्मेधोरूपा वै पशवो ज्य प्रयाजा युज्यन्ते पशुनामच्छतः प्रहदाज्यनानुजास्मादेश्रमिव पश्चात्सृष्टेकादशानुजाः प्राणा आत्मैकादशो यावानेव वशुस्तमनुजदिध्नन्ति न परंसि प्राणापानौ खलदा जतो पशूनान्यद्बृहदाज्यम् यत् बृहदाज्यो राजानि गजति प्राणापानादेव पशुषु दधा